अथ सप्ताशीतितमः सर्गः एवमुक्त्वा तु सौमित्रिम् जातहर्षो विभीषणः धनुष्पाणिम् तमादाय त्वरमाणो जगामसः अविदूरम् ततोगत्वा गत्वा प्रविश्यतु महद्वनम् अदर्शयत तत्कर्म लक्ष्मणाय विभीषणः नीलजीमूतसङ्काशम् न्यग्रोधम् भीमदर्शनम् तेजस्वी रावणभ्राता लक्ष्मणाय न्यवेदयत् इहोपहारम् भूतानाम् बलवान् रावणात्मजः उपहृत्य ततः पश्चात् सङ्ग्राममभिवर्तते अदृश्यः सर्वभूतानाम् ततो भवति राक्षसः निहन्ति समरे शत्रून् बध्नाति च शरोत्तमैः तमप्रविष्टम् यग्रोधम् बलिनम् रावणात्मजम् विध्वंसयशरैर्दीप्तैः सरथम् साश्वसारथिम् तथेत्युक्त्वा महातेजाः सौमित्रिर्मित्रनन्दनः बभूवावस्थितस्तत्र चित्रम् विस्फारयम् धनुः सरथेनाग्न्यवर्णेन बलवान् रावणात्मजः इन्द्रजित्कवची खड्गी सध्वजः प्रत्यदृश्यता तमुवाच समाह्वये त्वाम् समरे सम्यग्युद्धम् प्रयच्छ मे एवमुक्तो महातेजा मनस्वीरावणात्मजः अब्रवीत्परुषम् वाक्यम् तत्र दृष्ट्वा विभीषणम् इह त्वम् जात संवृद्धः साक्षाद्भ्राता पितुर्मम कथम् दृह्यसि पुत्रस्य पितृव्यो मम म राक्षसा न ज्ञातित्वम् न प्रमाणम् न च सौन्दर्यम् न धर्मो धर्मदूषणा शोच्यस्त्वमसि दुर्बुद्धे निन्दनीयश्च साधुभिः यस्त्वम् स्वजनमुत्सृज्य परभृत्यत्वमागतः नैतच्छिथिलया बुद्ध्या वेत्सि महदन्तरम् क्वच स्वजनसंवासः क्वच नीच गुणवान् वा परजनः स्वजनो निर्गुणोऽपि वा निर्गुणस्वजनः श्रेयाण्यः परः पर एव सः यस्वपक्षम् परित्यज्य परपक्षम् निषेवते स स्वपक्षे क्षयम् याते पश्चात्तैरेव हन्यते निरनुक्रोशता चेयम् यादृशी ते निशाचर स्वजनेन त्वया शक्यम् इत्युक्तो भ्रातृपुत्रेण प्रत्युवाच विभीषणः अजानन्निवमच्छीलम् किम् राक्षस विकत्थसे राक्षसेन्द्रसुतासाधो पारुष्यम् त्यज गौरवात् कुले यद्यप्यहम् जातो रक्षसाम् क्रूरकर्मणाम् गुणो यः प्रथमो नृणाम् तन्मे शीलमराक्षसम् नरमे दारुणेनाहम् न धर्मेण वैरमे भ्रात्रा विषमशीलोऽपि कथम् भ्राता निरस्यते धर्मात् धर्मात्प्रच्युतशीलम् हि पुरुषं पापनिश्चयम् त्यक्त्वा सुखमवाप्नोति हस्तादाशीविषम् यथा परस्वहरणे युक्तम् परदाराभिमर्शकम् त्याज्यमाहुर्दुरात्मानम् वेश्म प्रज्वलितम् यथा परस्वानाम् च हरणम् परदाराभिमर्शनम् सुहृदा मति शङ्का च दोषाः क्षयावहाः महर्षीणाम् वधो घोरः सर्वदेवैश्च विग्रहः अभिमानश्च रोषश्च वैरत्वम् प्रतिकूलता एते दोषा मम भ्रातुर्जीवितैश्वर्यनाशमाः गुणान् प्रच्छादयामा सुः पर्वता निवतो यदा दोषैरेतैः परित्यक्तो मया भ्राता पिता तव नेयमस्ति पुरीलङ्का न च त्वम् पिता अतिमानश्च बालश्च दुर्विनीतश्च राक्षसा बद्धस्त्वम् कालपाशेन ब्रूहि माम् यद्यदिच्छसि अद्येहव्यसनम् प्राप्तम् यन्माम् परुषमुक्तवान् प्रवेष्टुम् न त्वया राक्षसाधमा दर्शयित्वा च काकुत्स्थम् न शक्यम् त्वया युध्यस्व नर देवेन लक्ष्मणेन रणे सः हतस्त्वम् देवता करिष्यसि यमक्षयम् निदर्शयस्वात्मबलम् समुद्यतम् कुरुष्व सर्वायुधसाय कव्ययम् न लक्ष्मणस्यैत्य हि बाणगोचरम् इत्यार्षे श्रीमद् रामायणे आदिकाव्ये युद्धकांडे सप्ताशीति सर्ग